ॐ नमो भगवते वासुदेवाय अथ श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे पुरुषोत्तमव्रता उपदेशनाम द्वादशोऽध्यायः श्रीकृष्ण उवाच एवं गते शिवेराजन् सा, सा निश्वास निश्वासपरमाभीतां साश्रुनेत्रा कृशोदरीं हृदयाग्न्युत्थितज्ज्वाला ज्वलिताङ्गीकुमारिकां दावाग्नि सा लतेवासे तपस्विनी दुःखमीर्ष्याप्तवत्या एवम् एवं कालो महान् गतः असौ तामवचस्कन्द तादृशीं तापसीं प्रभुः सहसा तां समापन्नां फणिवाखुनिवेशनम् इति कालेन बलिनां वशं नीता तपस्विनी प्रावृण्मेघावृते व्योम्नि विद्युत्सौदामिनि यथां तथाश्रमे स्वके नष्टां तपसा दग्धकल्मषां तदानीमेव धर्मिष्ठो यज्ञशेनो नराधिपः बृहत्संभारसम्पन्नम् अकरोदि यज्ञमुत्तमं तदयज्ञकुण्डादुद्भूतां कुमारीकनकप्रभां सेयं द्रुपदशार्दूलम् तनया प्रतिता भुवि द्रौपदी सर्वलोकेषु ह्यार्षेयी या पुराभवत् सेयं वरे राजन स्वयंवरे राजन् मत्स्यवे लब्धार्जुनेन पाञ्चारी क्षुभिते राजमण्डली तृणीकृत्य नृपान् सर्वान् भीष्मकर्णादिकान् बहून् सेयं कचग्रहं प्राप्ता दुष्टदुःशासनात् सखे वचांसि कर्णशूलानि श्राविता वरवर्णिनि मया चोपेक्षिता पुरुषोत्तमहेलनात् यदा मयि कृतस्नेहा मन्नामान्यवदन्मुः दामोदर दया सिन्धो कृष्ण कृष्णजगत्पते हे नाथ हे न माता न तातो न च भ्रातृवर्गो न सख्यो न जातिर्न वै भागिनेयः न बन्धुर्न चेष्टो न वै प्राणनाथो हृषिकेशसर्वं भवानेवमेस्ति गोविन्दगोपिकानाथ दीनबन्धोदयानिधे दुःशासनपराभूतां किं न जानासि मां प्रभुः दुःशासनपराभूता तदा द्रुपदनन्दिनी मदीयं स्मरणं प्राप्ता विस्मृतापि मया पुरा शीघ्रं गरुडमारुह्य तत्रागत्य स्थितेन वै पूरितानि मया राजन् अस्यैवासां शनेकष सदा मयि कृतस्नेहात्प्राणामत्परायणं ममातिवल्लभा साध्वी सखी मे प्राणसन्निभां तप्तथाप्युपेक्षितेयं सा पुरुषोत्तमहेलनात् हरिवल्लभमासस्यामन्तुः पातनं मया निश्चितं मुनिदेवानां सेव्योऽयं पुरुषोत्तमः किं पुनर्मानुषाणां तु सर्वार्थफलदायकः तस्मादाराधयस्वैनम् आगामि पुरुषोत्तमम् वर्षे चतुर्दशे पूर्णे सर्वं ते भविता शुभं व्यलोकीयैर्द्रौपद्याः केशाकृष्णिबाण्डुनन्दनं तन्नारेणामहं राजन् निर्वपिष्ये लकान् स्रुसा सुयोधनादिभूपालान् सर्वान्नेष्ये यमालयं सर्वशत्रुक्षयं कृत्वा त्वं च राजा भविष्यसि न मे क्षीरोदतनया प्रिया नापि हलायुधा न ना तथा देवके देवी न प्रत्युम्नो न सात्यकिः यादृशा मे प्रिया भक्तास्तादृशो नास्ति कश्चन येन मे पीडिता भक्तास्तेनाहं पीडितः सदां द्वेष्यो मे नास्ति तत्तुल्यो यमस्तस्य फलप्रदः नावलोक्यो मया दुष्टो दण्डार्थमपि पाण्डवम् श्रीकृष्णस्तान् समाश्वास्य पाण्डवान् द्रौपदीं तथा कुशस्थलीं जिगमिषु उवाच मधुसूदनः श्रीकृष्ण उवाच राजन्न गमिष्यामि द्वारकां विरहाकुलां वसुदेवो महाभागो बलदेवो ममाग्रजः मन्माता देवकी देवी गदसाम्वादयोपरि आहुकाद्याश्च यादवो रुक्मिण्याश्चे ते निविषैर्नेत्रैर्मदागमनकाङ्क्षिणः मामेव चिन्तयन्त्येवं मद्दर्शनसमुत्सुकाः इत्युक्तवन्तं देवेशं कथञ्चित् पाण्डुनन्दनाः हरिप्रयाणमालक्ष्य तमोचुर्गद्गदाक्षरम् पाण्डवा उचुः जीवनं नो भवानेव यथा वारिजलौकसां पुनर्दर्शनमल्पेन कालेनास्तु जनार्दन पाण्डवानां हरिर्नाथो नान्यः कश्चिज्जगत्त्रये इत्थं सर्वे वदन्त्यद्धा तस्मान्न पाहि सर्वदा न विस्मार्या वयं सर्वे त्वदीया जगदीश्वरम् अस्मच्चेतो मिलिन्दानां जीवनं त्वत्पदाम्बुजं मुहुर्मुहुः प्रप्रार्थयामो मुहुर्मुहुः प्रार्थयामो भवानेवावलम्बनम् असकृत्पाण्डुपुत्रेषु गृणत्स्वेवं यदूद्वः मन्दं मन्दं समारुह्य रथं प्रेम ययौ द्वारवतीमेतां परावृत्यानुगच्छतः श्रीनारायण उवाच अथ द्वारकानाथी गते द्वारवतीं तन राजापि सानुजस्तप्यं विचारः पुरुषोत्तमे मनः कृत्वा ब्रह्मन् श्रीभगवत्प्रिये अनुजानाः कृष्णां च विश्वक्सेन वचस्मरन् अहो श्रुतमतीवोऽग्रं माहात्म्यं पौरुषोत्तमं कथं सुखानि लभ्यन्ते नाभ्यर्च्य पुरुषोत्तमं स धन्यो भारते वर्षे स पूज्यः श्रेष्ठ एव सः यस्तु पूजयेत पूजयेत्पुरुषोत्तमम् एवं सर्वेषु तीर्थेषु भ्रमन्तः पाण्डुनन्दनाः पुरुषोत्तममासाद्य व्रतं चेरुर्विधानतः तदन्तेराज्यमतुलम् अवापुरगतकण्टकं पूर्णे चतुर्दशे वर्षे श्रीकृष्णकृपया मुने दृढधन्वा नृपः पूर्वं सूर्यवंशसमुद्भवः पुरुषोत्तममासस्य सेवनान्महतीं श्रियम् इतः परं दृढधनवोपाख्यानमारभ्यते पुत्रपौत्रसुखं चैव भोक्त्वा भोगाननेकशः जगामवगवल्लोकम् अगम्यं योगिनामपि एतनमासस्य माहात्म्यम् अतुलं मुनिसत्तमं नाहं वक्तुं समर्थोऽपि कल्पकोटिशतैरपि सूत उवाच पुरुषोत्तममासस्य कृष्णद्वैपायनादहं माहात्म्यं श्रुतवान् विप्रां वक्तुं तदपि न प्रभुः अस्य माहात्म्यमखिलं वेत्ति नारायणः अथवा भगवान् साक्षाद् वैकुण्ठनिलयो हरि ब्रह्मादिदेवानथ पादपीठ गोलोकनाथेन स्वकीकृतस्य माहात्म्यमेतत्पुरुषोत्तमस्य देवो न जानाति कुतो मनुष्यः इति श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादे पुरुषोत्तमव्रतोपदेशो नाम द्वादशोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु